सिंहनादश्च संज्ञे साधुशब्देन मिश्रितः ततः पञ्चालराजस्तु तथा सत्यजिता सह त्वरमाणोऽभिदुद्राव महेन्द्रं शम्बरो यथा महताशरवर्षेण पार्थः पाञ्चालमावृणोत् ततो हलहला शब्द आसीत् पाञ्चालके बले जिघृक्षति महासिंहो गजानामि वयूथपम् दृष्ट्वा पार्थं तदायान्तम् सत्यजित्सत्यविक्रमः पाञ्चालं वै परिप्रेप्सिर्धनञ्जयम् पाद्रवत् ततत्स्वर्जुन पाञ्चालौ युद्धाय समुपागतौ व्यक्षोभयेताम् तौ सैन्यमिन्द्रवैरोचनाविव ततः सत्यजितम् पार्थो दशभिर्म भेदिभिः विव्याधबलवद्गाढम् तदद्भुतमिवा भवत् ततः शरशतैत्पार्थम् पाञ्चालशीघ्रमार्दयत् पार्थस्तु शरवर्षेण छाद्यमानो महारथः वेगम् चक्रे महावेगो धनुर्जामवमृज्य च ततः सत्यजितश्चापम् छित्त्वा राजानमभ्ययात् अथान्यद् धनुरादाय सत्यजिद्वेगवत्तरम् साश्वंससूतम् सरथम् स तं नमु मृषे पार्थः पाञ्चालेनार्दितो युधि ततस्तस्य विनाशार्थं सत्वरं व्यस्रजच्छरान हयान् ध्वजं धनुर्मुष्टिमुभौ तौ पाश्निसारथि स तथा भिद्यमानेषु कार्मुकेषु पुनः पुनः हयेषु विनियुक्तेषु विमुखो भवदाहवे स तथा विमुखमाहवे वेगेन महताराजन्नभ्यवर्षत तदा चक्रे महद्युद्धमर्जुनो जयतां वरः तस्य पार्थो धनुच्छित्त्वा ध्वजं चोर्व्यामपातयत् पञ्चभिस्तस्य विव्याध हयांसूतञ्च सायकैः तत उत्सृज्य तच्चापमाददानं शरावरं खड्गमुद्धृत्य कौन्तेय सिंहनादमथाकरोत् पाञ्चालस्य रथस्येषाम् आप्लुत्य सहसा पतत् पाञ्चालरथमास्थाय अवित्रस्तो धनञ्जयः विक्षोभ्याम्भोनिधिम् पार्थस्तं नागमिव सोऽग्रहीत् ततस्तु सर्वपाञ्चाला विद्रवन्ति दिशो दर्शयन् सर्वसैन्यानां स बाह्वोर्बलमात्मनः सिंहनादस्वनं कृत्वा निर्जगामधनञ्जयः आयान्तमर्जुनं दृष्ट्वा कुमाराः सहितास्तदा ममृदुस्तस्य नगरं द्रुपदस्य महात्मनः